उपति ए दशकम् देवकी गर्भम् सान्त्रानन्दतनोहरे ननुपुरा दैवासुरे संगरे त्वत्कृता अभि चेशवचतो ये तेन याता गतिम् तेषाम् भूतलजन्मनाम् दिदि पुम् भारेण दूरार्दित भूमि प्रापविरिञ्चमाश्रितपदम् देवै पुरैवा गतै हाहादुर्जन भूरिभारमतित पादो निदौ पातुका एताम् पालय हन्त मे विवचता सम्भृश्च देवानि मा इत्यादिप्रचुरप्रलाभविवचा आलोक्य दाता देवानाम् वदनानि वीक्ष्य परितो दद्यौ भवन्तम् हरे ऊचे साम्बुजभूरमूनयिसुरा सत्यम् दरिद्र्या स्वसो नन्वस्या भवताम् च रक्षणविदो दक्षो हि लक्ष्मीपती सर्वे सर्वपुरःसरावयमितो गत्वा पयो नत्वा त्वम् स्तुमके जवादिति ययो सागम् तवा के ते मुग्धानिलचालिदुक्तजलदे तीरम् गदाशम् गदा यावत् त्वत्पदचिन्तनैकमनस तावत् स हृदये निशम्यसकलान् आनन्दयन्वूचिवान् आख्याद परमात्मना स्वयमहम् वाक्यम् ददा कर्ण्यताम् जाने दीनदशामहम् दिविशदाम् भूमेश्च भूयिमैर्नृपे प्रक्षेपाय भवामि यादवकुले सोकम् समग्रात्मना देवावृष्णिकुले भवन्तु कलया देवाङ्गनाश्चावनौ मत्सेवार्तमिति द्वतीयवचनम् पादो जभूरु शिवान् सर्वेषु निर्वापित स्वान्तेष्वी च गतेषु तावगकृपा पीयूष तृप्तात्मसु विख्यादे मधुरा पुरे किल भवत् सान्निध्य पुण्योत्तरे राजा सूरात्मजाम् उद्वाहावसितौ तधीयस गज ंसोतसम्मानयन् एतौ सूततया अस्यास्वामदिदुष्टमष्टमसुदो हन्तेदि हन्तेरित सन्त्रासात् स दुःखम् तुमन्तिकगताम् तन्वीम् कृपाणी मदात् कृनश्चिकुरेषु ताम् कलमति सौरेश्चिरम् सान्त्वनै नो मुञ्चन् प्रीतोतयातो गृहान् आद्यम् त्वत्स गजम् ततार्पितमपि स्नेहेन दुष्टा नामभिदेव पुष्टकरुणा द्रष्टा हि धीरे गता तावत् मन्मनसैव नारदमुनि प्रोचे स भोजेश्वरम् यूयम् नन्वसुरासुराश्च यतवो जानासि यत्याकर्ण्ययदून दूदुनदसौ सौरेश्च सूनूनहन् प्राप्ते सप्तमगर्भदामकिपदो त्वत्प्रेरणान्मायया नीते माधवरोहिणीम् त्वमविभो सच्चित्सुखैकात्मका देवक्या जटरं विविशित विभो संस्तूयमानः सुरै सत्त्वम् कृष्णविदूय रोगपटले भक्तिम् पराम् देहि मे सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द